अथ प्रतिपूरुषानुवाकौ शिवाय नमः ओ प्रतिपूरुषमेककपालान्निर्वपत्येकमतिरिक्तम् यावन्तो गृह्याः स्मस्तेभ्यः कमकरम् पशूनागुम्सर्माधिशर्म यजमाणस्य शर्म मे यच्छैक एव रुद्रो ण द्वितीयाय तस्थे आखुस्ते रुद्रपशुस्तञ्जुषस्वैषते रुद्रभागः सहस्रस्वाम्बिकयातञ्जुषस्वभेषजम् गवेष्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजगुंसुभेषजम् सुगम् मेषाय मेष्या अवाहम्बरुद्रमदिमह्यवदेवम् त्र्यम्बकम् यथा नः श्रेयसः करद्यथा नो वस्य सः करद् यथा नः पशुमतः करद्यथा नोम् व्यवसाययात् त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् एष ते रुद्रभागस्तञ्जुषस्वतेनावसेन परो मूजवतोऽतिह्यवततत धन्वा पिनाकहस्तः कृत्तिवासाः जाता एव प्रजा रुद्रान्यरवदयते एकमतिरिक्तम् जनिष्यमाना एव प्रजा रुद्रान्यरवदयते एककपाला भवन्ति एकथैव रुद्रन्निरवदयते ये कोल्मुखे न यन्ति तद्धि रुद्रस्य भागधेयम् इमाम् दिशञयन्ती एषा वै स्वायामेव दिशि रुद्रण्यरवतयते रुद्रो वा पशुकाया आहुत्यैनातिष्ठत असौ ते यमेव द्वेष्टि तमस्मै पशुन्निर्दिशति यदि न द्विष्यात् आकुस्ते पशुरिति ब्रूयात् न ग्राम्यान्पशून् हिनस्ति नारण्यान् चतुष्पथे जुहोति एष वा अग्नीनाम् नाम अग्निवत्येव जुहोति मध्यमेण पर्णेण जुहोति सुव्येषा अथो अन्तमे अन्तमेणैव होतव्यम् अन्तत एव रुद्रन्निरवदयते एष ते रुद्रभागसहस्रस्वाम्बिकयेत्याः शरद्वा अस्याम्बिका स्वसा यगुम् हिनस्ति तयैवैनगुंसहशमयती भेटजङ्गवैत्याः यावन्त एव ग्राम्याः पशवः तेभ्यो भेटजम् करोति अहाम्बरुद्रमधिमहीत्याः आशिषमेवैतामाशास्ते ्यम्भगम् यजामः इत्याह नृत्योर्मुक्षीयमामृतादितिवा वैतदाः उत्किरन्ती भगस्य लीप्सन्दे मूते कृत्वा सजन्ति यथा जनै यते वसम् करोति तादृगेव तत् येष ते रुद्रभाग इत्याह निरवत्यै अप्रतीक्षमायन्ती अपः परिषिञ्छती रुद्रस्यान्तरिहित्यै प्रवा एते स्माल्लोकाच्यवन्ते येत्यम्बकैश्चरन्ती आदित्यम् चरुम् पुनरेत्यनिर्वपती इयम् वा अस्यामेव प्रति बिभ्र बिहत्ब सौम्यम मध्वायुदावि वातचूसो यो अभिक्षति प्रजाप्वर्ति बहुधा विराजती नेत्रयों